अते अथ तृतीयाष्टकनवमप्रश्नप्रारम्भः प्रजापतिरश्वमेधमसृजता सोऽस्मात्सृष्टोपाक्रामत् तमष्टादशभिरनुप्रायुङ्क्ता त्वा आप्नोत् तमाप्त्वाष्टादशभिरवारुन्धा निरष्टादशिन आलभ्यन्ते निर्यमेव तैराप्त्वा यजमानो वरुन्धे संवत्सरस्य वा प्रतिमा विरष्टादशिनः द्वादश पञ्चर्तवः संवत्सरोष्टादशः यदष्टादशिन आलभ्यन्ते संवत्सरमेव तैराप्त्वा यजमानो वरुन्धे अध्यष्ठेऽन्यान् पशोतपाकरोति इतरेषु लोकेष्वष्टादशिनोजामित्वाय नवनवालभ्यन्ते सवेर्यत्वाया यदारण्ये सग्स्थापयेत् व्यवस्येताम् पिता पुत्रौ यध्वानः क्रामेयोः विलोरङ्ग्रामयोर्ग्रामान्तौ स्याताम् रक्षिताः पुरुषव्याघ्राः परिमोषिण आव्याधिनेतस्तरारण्य श्वाजायेरन् तदाहुः अपशवो वा एते यदारण्याः यदारण्ये सर्गस्थापये एते क्षिप्रे लगमानमरण्यम् मृतगुम्हरेयोः अरण्यायतनाह्यारण्याः पशवदिति यत्पशोन्नालभेत अनवरुद्धा अस्य पशवः स्युः यत्पर्यज्ञकृतानुत्सृजेत् यज्ञवेशसम् कुर्यात् यत्पशो न लभते तेनैव पशोनवरुन्धे यत्पर्यज्ञिकृतानुत्सृजत्ययज्ञवेशसाय अवरुद्धा अस्य पशवो भवन्ति न यज्ञवेशसम् भवति न यजमानमरण्यम् एते वै पशवः क्षेमो नाम सम्पिता पुत्रा वपस्यतः समध्वानः क्रामन्ति समन्तिकम् ग्रामयोर्ग्रामान्तो भवतः नर्क्षीकाः पुरुषम् व्याघ्राः परिमोषिण आव्याधिनेतस्तस्करा अरण्येष्वाजायन्ते प्रजापतिरकामयतो भौ लोकावरुन्धीर्येति स एतानुभया ग्राम्यादिश्चारण्यादिश्च तानालभत तैर्वैस उभो लोकाववारुन्ध ग्राम्यैरेव पशुभिरिमम् लोकमवारुन्ध आरण्यैरमम् यद्ग्राम्यान् पशोनालभते इमेव तैर्लोकमवरुन्धे यदारण्यान् अमम् तैः अनवरुद्भो वा एतस्य संवत्सर यदित इतश्चादुर्मास्यानि संवत्सरम् प्रयुङ्क्त इति ते तावानवैः संवत्सरः यच्चादुर्मास्यानि यदेते चादुर्मास्याः पशवः लभ्यन्ते प्रत्यक्षमेव तैः संवत्सरम् वरुन्धे दिवा एष प्रजया पशुभिरुध्यते यः संवत्सरम् प्रयुङ्क्ते लोकः सुवर्गम् तु लोकन्नापराध्नोति प्रजा पशव एकादशिनी यदेत एकादशिनाः पशव आलभ्यन्ते साक्षादेव प्रजाम् पशो न यजमानो वरुन्धे प्रजापतिर्विराजमसृजत सा सृष्टाश्वमेधम् प्राविशत् ताम् दशिभिरनुप्रायुङ् तामा तामाप्त्वा दशिभिरवारुन्ध यद्दर्शिण आलभ्यन्ते विराजमेव ते राप्त्वा यतमानो वरुन्धे एकादशदशरः लभ्यन्ते एकादशाक्षरात् त्रिष्व त्रेष्टुभाः पशवः पशूने वा वरुन्धे वईश्वरेवो वा अश्वः नानादेवत्याः पशवो भवन्ति अश्वस्य सर्वत्वाय नानारूपा भवन्ति तस्मान्नारूपाः पशवः बहुरूपा भवन्ति तस्माद् बहुरूपाः पशवः सनिध्यै अस्मै वै लोकायद्ग्राम्याः पशव आलभ्यन्ते अमुष्मा आरण्याः यद्ग्राम्यान्पशो नालभते इममेव तैर्लोकमवरुन्धे यदारण्यान् अमुन्तैः उभयान् पशोना लभते ग्राम्यागिश्चारण्यागिष्ट उभयोर्लोकयोरवरुध्यै उभया अन्पशो नालभते ग्राम्यागिश्चारण्यागिष्ट उभयस्यान्नाद्यस्यावरुध्यै उभया अन्पशो नालभते पशूनामवरुध्यै त्रयस्त्रयो भवन्ति त्रय लोकाः येषाम् लोकानामात्यै ब्रह्मवादिनो वदन्ति कस्मात् सत्यात् अस्मिल्लोके बहवः कामा इति यत्समानेभ्यो देवताभ्योऽन्येऽन्ये पशवः लभ्यन्ते अस्मिन्नेव तल्लोके कामान् दधाति तस्मादस्मिल्लोके बहवः कामाः त्रयाणाम् त्रयाणागुंसहवपा जुहोति प्रियावृतो वै देवाः प्रियावृतहिमे लोकाः येषाम् लोकानामाप्त्यै येषाम् लोकानाम् प्रत्यै पर्यग्निकृतानारण्यानुत्सृजन्त्य हि गुंसायै विञ्जन्त्य ब्रध्नमित्याह असौ वा आदित्यो ब्रध्नः आदित्यमेवास्मै जुनद्ये अरुषमित्याह अग्निर्वा अरुषः अग्निमेवास्मैजुनगे चरन्तमित्याह वायुर्वै चरन्ने वायुमेवास्मैजुनक्दे परितस्थुष इत्याह इमे वै लोकाः परितस्थुषः इमानेवास्मै लोकानि युनक्दे लो रोचन्ते रोचनादिवे इत्याह नक्षत्राणि वै रोचनादिवि नक्षत्राण्येवास्मै रोचयति युञ्जन्यस्य काम्येत्याह कामानेवास्मै जुनक्ति हरिविपक्षसेत्याह इमे वै हरि विपक्षसा इमे एवास्मै जुनक्दि शोणाधिष्णो नृवाहसेत्याह अहोरात्रे वै अहोरात्रे एवास्मै जुनक्दि एता एवास्मै देवताजुनग् सुवर्गस्य लोकस्य समष्ट्यै केतुम् कृण्वन्न केतव इति ध्वजम् प्रतिमुञ्चति यश एवै न गुंराज्ञाङ्गमयति जीवो तस्यैव भवति प्रतीकमित्याह यथा यजुरेवैतत् एते पन्थानः सवितः पूर्व्यासयित्यध्वर्युर्यजमानम् वाचयत्यभिजित्यै एतस्य यज्ञयेति यस्य पशुभृपाकृतोऽन्यत्र वेऽध्यायेति एतद् स्तोतरेतेन पथा पुनरश्वमावर्तयासि नजित्याः वायुर्वै स्तोताः वायुमेवास्य परस्ताग्धावृत्यै यथा वै हविषो एतदश्वस्य स्कन्दति यदस्योपाकृतस्य लोमा निषीयन्ते यद्वालेषु वाचा नावयन्ति भोर्भुवः सुवरिति प्राजापत्याभिरावयन्ति प्राजापत्यो वा अश्वः स्वयैवैलम् देवतया समर्थयन्ति भोरिति महिषे भुव इति बाबाका सुवरिति परिवृत्त्ये येषाम् लोकानामभिजित्यै हिरण्यया का च भवन्ति ज्योतिर्वै हिरण्यम् राष्ट्रमश्वमेघः ज्योतिश्चैवास्मि राष्ट्रम् च समेथी दधाति सहस्रम् भवन्ति सहस्रसंहितः सुवर्गो लोकः सुवर्गस्य लोकस्याभिजित्यै अभवा एतस्मात् तेज इन्द्रियम् वशवश्रेः क्रामन्तिमेधेन यजते बसवस्ताञ्जन्तुकायत्रेण सन्दसेति महिष्यभ्यनक्ति आज्यम् तेजोगायत्री तेजसैवास्मै तेजोवरुन्धे रुद्रास्त्वा अञ्जन्तु त्रैष्टुभे नछन्दसेति वावाता तेजो वा आज्यम् इन्द्रियम् दृष्टुभे तेजसैवास्मा इन्द्रियमवरुन्धे आदित्यास्त्वा अञ्जन्तु जागते न छन्दसेति परिभृति तेजो वा तेजसैवास्मि पशोनवरुन्धे पत्नयो भ्यञ्जन्ति श्रिया वा एतद्रूपम् यत्पत्नयः श्रियमेवास्मिन् तद्दधति नास्मात्तेज इन्द्रियम् पशवश्रैरपक्रामन्ति लाजी यशो ममा न्नमस्वाजोपाहरन्ति प्रजामेवान्नादीम् कुर्वते एतद्देवा अन्नमत्तैतदन्नमग्नि प्रजापतयित्याह प्रजायामेवान्नाग्यम् दधते यदिनामजिघ्रयेत् अग्निः प्रशुरासीदित्यवघ्रापयेत् अवहैव जिघ्रति क्राजीक्रमेरत्यक्रमे द्वाजीद्यौस्ते पृष्ठम् पृथिवी सधस्थमित्यश्वमनुमन्त्रयते येषाम् लोकानामभिजित्यै समिद्धो अञ्जम् कृतरम् मतीनामित्यश्वस्य प्रियो भवन्ति सर्वभक्ताय तेजसा वा एष ब्रह्मवर्चसेन व्युध्यते यो अश्वमेधेन गजते होता च ब्रह्मा च ब्रह्माद्यम् वदतः तेजसा चैवेन ब्रह्मवर्चसेन च समर्थयतः दक्षिणतो ब्रह्मा भवति दक्षिणत आयतनो वे ब्रह्मा वारहस्पत्यो वे ब्रह्मा ब्रह्मवर्चसमेवास्य दक्षिणतो दधाति तस्माद्दक्षिणार्धो ब्रह्मवर्चसितरः उत्तरतो होता भवति उत्तरत आयतनो वैहोता आग्नेजो वैहोता तेजो वा अग्निः तेज एवास्योत्तरतो दधाति तस्मादुत्तरोऽर्धस्तेजस्पितरः यूपमभितोऽवदतः यजमानदेवत्यो वैयूपः यजमानमेव तेजसा च ब्रह्मवर्तसेन च समर्थयतः किसि दासेत्पूर्वचित्तिरित्याह द्यौर्वैवृष्टिः पूर्वचित्तिः दिवमेव वृष्टिमवरुन्धे त्यग्स्य दासेद्बृहद्वजित्याह अश्वमै बृहद्वजः अश्वमेवावरुन्धे त्यज्ञस्य दासेत्पिशङ्गिलेत्याह रात्रिर्वेपिशङ्गिला रात्रिमेवावरुन्धे त्यज्ञस्य दासेत्पिलिप् पिलेत्याह श्रेर्वेऽपिलिप् पिला अन्राग्यमेवावरुन्धे चरति कस्विदेका चरतीह चरति व आदि एकी चरतीवरुंधे कऊस्विज्जातेनह चंद्रमा जायते पुनः आजरे वृंधे क्यमस्ज मिह अग्निरवे हिमस्ज ब्रह्म वर्तमेवा वृंधे त्यस्विदापनमि अयोक आवपनम महत् अस्म लोक प्रतिषति पृछा मिपरम पृथिव्याह वेदी वैपरा पृथिव्या वेदीमें वृंधे पक्षा मिभुवन सेह यो वै भुवन से ना ये वृंधे पृछा मिवृष्णा अश्विताह सोमो वै वृष्णो अश्वस्य रेतः सोमपीठमेवावरुन्धे वृच्छावि वाचः परमम् व्योमेत्याह ब्रह्म वै वाचः परमम् व्योम ब्रह्मवर्चसमेवा वरुन्धे अपवा एतस्मात् प्राणाः क्रामन्ति योऽश्वमेधेन यजते प्राणाय स्वाहा ज्ञानाय स्वाहेति साम् व्याप्यमान आहुतेऽर्जुहोति प्राणानेवास्मिन् दधाति नास्मा प्राणा अपक्रामन्ति अवन्ते स्थावन्ते स्तावन्त प्रियन्त्वा प्रियाणा वरषष्ठमाप्यानाम् निधीनान्तानि धिपतिगम् हवामहेव सो ममेऽप्याः अपैवास्मै तद्ध्रुवते अथो ध्रुवन्त्येवैनम् अथोन्येवास्मैन्धुते त्रिः परिजन्ति त्रय इमे लोकाः एभ्य एवैनम् लोकेभ्यो धुवते त्रिः पुनः परिजन्ति षट्सम्पद्यन्ते षड्वा ऋतवः अपवा एतेभ्यः प्राणाः ये यज्ञे धुवनम् तन्वते नवकृत्वः परिजन्ति पुरुषे प्राणाः प्राणानेवात्मम् दधते नएभ्य प्राण अपक्रमंती अंबेबाल्यंबिक पत्नी नहदना अं सुभगे काीलवासीह तप एवनापनये लोके संप्रोन्वा था मिलह स्वर्गमेईनालोक गमयती आहम जा गर्भधमात्म जाह प्रजा वै पशव गर्भ प्रजामेव पशूनात्मम् धत्ते रे वा अश्वमेधे पवमाने स्वर्गम् लोकन्न प्राजानन् तमश्व प्राजाना यत्सूचीभिरसि पथाम् कल्पयन्ति स्वर्गस्य लो लोकस्य प्रज्ञात्ये राजत्रे तृष्टब्जगतीत्याह यथा रजुरेवैतत् त्रय्यः सूच्यो भवन्ति अयस्मैयोरजता हरिण्यः अस्य वै लोकस्य रूपमयस्मैयः अन्तरिक्षस्य रजताः दिवो हरिण्यः दिशो वा अयस्मैयः अवान्तरदिशारजताः वोर्ध्वा हरिण्यः दिश एवास्मै कल्पयति कस्त्वाच्छति कस्त्वा दिशास्तीत्याहाहिगुंसाये कस्त्वा अपवा अब एतस्माच्छ्रीराष्ट्रम् क्रामति श्वमेघेन गजते ओर्ध्वा मेनामुच्छ्रयतादित्याह श्रेरमैराष्ट्रमश्वमेघः श्रियमेवास्मै राष्ट्रमोर्ध्वमुच्छ्रयति वेणुभारम् गिराविवेत्याह राष्ट्रम् वै भारः राष्ट्रमेवास्मै पर्योहति अथास्यामध्यमेधतामित्याह श्रेरमैराष्ट्रस्य मध्यम् श्रियमेवावरुन्धे शीते वाते क्षेमो वै शीतो वातः क्षेममेवावरुन्धे यद्धरणीजवमत्तीत्याह विड्वैहरिणी राष्ट्रञ यवः विषम् चैवास्मै राष्ट्रम् च समेची दधाति न पुष्टम् पशुमन्यकलिक्याः तस्माद्राजा पशोन्न पुष्यति शोद्राय द्यचारा न पोषायधनायतीत्याह तस्माद्वैषी पुत्रभिषिञ्चन्ते यय्यकाशकुन्तिकेत्याह बिड्वैषकुन्तिका राष्ट्रमश्वमेधः विषम् चैवास्मै राष्ट्रम् दधाति आहलमिति सर्पतीत्याह तस्माद्राष्ट्राय विषः ऋग्वेगभः राष्ट्रम् वसः राष्ट्रमेव विशाहन्ति तस्माद्राष्ट्रम् सङ्घातुकम् माता च ते पिता च त इत्याह इयम् वै माता असौ पिता आभ्यामेवैनम् परिददाति अग्रम् वृक्षस्य रोहतनित्याह श्रेरुमै वृक्षस्याग्रम् श्रियमेवावरुन्धे प्रसुलामीति ते पिता गभे मुष्टिमतगं सजदित्याह विड्वे गभः राष्ट्रम् मुष्टिः राष्ट्रमेव विस्साहन्ति तस्माद्राष्ट्रम् अपवा एतेभ्यः प्राणाः ये यज्ञे पूतम् वदन्ति क्राविणो अकारिषमिति सुरभिमती वृथम् वदन्ति प्राणावै सुरभयः णादेवात्मम् दधते नैभ्यः प्राणा, प्राणा अपक्रामन्ति आपोहिष्ठापजो भवतित्यद्धर्मार्जयन्ते आपोऽ सर्वा देवताः देवताभिरेवात्मानम् पवयन्ते प्रजापतिः प्रजाः सृष्ट्वा रत्नवदेत्सः यो मेतः पुनः सम्भरदिति अश्वमेधेनैव समभरन् ततो वै त आर्ध्वन् योऽश्वमेधेन यजते प्रजापतिमेव सम्भरत्युद्ध्नाति वैराजो वै पुरुषः विराजमेवालभते अथो अन्नम् वै विराट् अन्नमेवावृन्धे अश्वमालभते प्राजावत्यो वा अश्वः प्रजापतिमेवालभते अथो श्रेर्वा एकशभम् श्रियमेवावरुन्धे गामालभते यज्ञो वै गौः यज्ञमेवालभते अथो अन्नम् वै गौः अन्नमेवावरुन्धे अजावी आलभते भूम्ने अथो पुष्टिर्वै भूमा पुष्ट्यमेवा वरुन्धे पर्यग्निकृतम् पुरुषम् चारण्यागश्चोत्सृजन्त्य हिकंसायै उभौ वा एतौ पशौ आलभ्येते यश्चापमायश्च परमः ते ये सोभये यज्ञे बद्धाः अभीष्टा अभिप्रीताः अभिजिता अभिहुता भवन्ति नैनन्ताङ् श्रवः यज्ञे बद्धाः अभीष्टा अभिप्रीताः अभिजिता अभिहुता हि पुंसन्ति योश्वमेधेन यो यजते यौ चैनमेवम् वेद प्रथमेन वा एष स्तोमेन राध्वा चतुष्टोमेन कृतेन जानामुत्तरे हल्ले एकविपुंसात्प्रतिष्ठाय ऋतोऽनन्वारोहति ऋतवो मे पृष्ठानि ऋतवः संवत्सरः ऋतुष्वेव संवत्सरे प्रतिष्ठाय देवता अभ्यारोहति सक्परजः पृष्ठम् भवन्त्यन्यदम् यच्छन्दः एते पशवः आलभ्यन्ते उदेव ग्राम्याः अहरेव रूपेण समर्थयति अथो अह्न एवैष बलिर्ह्रियते तदाहुः अपशवो वा एते यदजापयश्चरण्याश्च एते वै सर्वे पशवः यद्गव्याग्नि गव्यान्पशोऽनुत्तमेऽहन्ना लभते तेनैवो भयान्पशूनवरुन्धे प्राजापत्या भवन्ति अनभिजितस्याभिजित्यै सौरेर्नवशेतावशानानुबन्ध्या भवन्ति अन्तत एव ब्रह्मवर्चसमवरुन्धे सोमाजस्वराज्ञेनो वाहापनड्वाहा विजिद्वन्दिनः पशूना लभते अहोरात्राणामभिजित्यै पशुभिर्वा एष व्यर्थ्यते योऽस्त्वमेधेन गजते सकलम् कल्वा शङ्किविदीनम् विदेकजयमिति त्वाष्ट्रान् ऋतुभिर्वा एष व्यर्थ्यते यो अश्वमेधेन गजते विषङ्गास्त्रयो वा सन्ता इत्युतपशूना लभते ऋतुभिरेवात्मा नकुम् समर्थयति आवा एष पशुभ्यो वृश्यते यो अश्वमेधेन गजते पर्यग्निकृता उत्सृजन् जना आभ्रस्काय प्रजापतिरकामयतमहानन्नादस्यामिति स जेतापश्वमेधे महिमानावपश्यत् तावगृह्णीत ततो वै स महानम् नादो भवत् यः कामजेत महानम् आदस्यामिति स जतावश्वमेधे महिमानो गृह्णीत महानेवान्नादो भवति यजमानदेवत्या वै वपा राजा महिमा यद्वपाम् महिम्नो भगतः परिगजते यजमानमेव राज्येन भयतः परिगृह्णाति पुरस्तात् स्वाहाकारा वा अन्ये देवाः उपरिष्टात् स्वाहाकारा अन्ये ते वा एतेष्व एवमेध्य उभये वरुध्यन्ते यद्वपाम् महिम्ना भजतः परिगजति तानेवो भजा अन्प्रीणाति वै वा अश्वः तञ्यत्प्राजापत्यम् कुर्यात् या देवता अपि भागाः ताभागधेजेन व्यर्थयेत् देवताभ्यः समदम् दध्यात् सेगान्तगृष्ट्राभ्याम् मण्डोकान्तम्भेभिरिति आज्यमवदानम् कृत्वा प्रतिसङ्ख्यायमाहुतेऽर्जुहोति या एव देवता अपि भागाः ताभागधेजेन न देवताभ्यः समदम् दधाति चतुर्दशैता ननु वाकाञ्जहात्यनन्तरित्यै प्रयासाय साहेति पञ्चदशम् पञ्चदश वा अर्धमासस्य वा त्रयः अर्धमासशः संवत्सर आप्यते देवासुराः संयत्ता आसन् ते ब्रुवन्नग्नजश्चकृतः अश्वस्य मेऽध्यस्य वजमुद्धारमुद्धरावहै असैतानभिभवामेति ते लोहितमुदहरन्त ततो देवा अभवन् परासुराः यत्सृष्पगद्भ्यो लोहितम् जुहोदिग्भ्रातृव्याभिभोक्त्यै भवत्यात्मना परा अस्य भ्रातृजो भवति गोमृगकण्ठेन प्रथमाहुतिम् जुहोति पशवो वेगो मृगः रुद्राग्निःसृष्टकृत् रुद्रादेव पशोऽनन्तर्दधाति अथोज त्रेषाहुतिर्होजते न तत्र रुद्रः पशूनभिमन्यते अश्वशभेन द्वितीयामाहुतिम् जहोति पशवो वा एकशभाम् रुद्राग्निःसृष्टकृत् रुद्रादेव पशोऽनन्तर्दधाति अथोज त्रेशाहुतिर्होयते न तत्र रुद्रः पशूनभिमन्यते अयस्मलेन कमण्डलु ना तृतीया आहुतिञ्जुहोत्याजास्य वै प्रजाः रुद्राग्निःसृष्टकृत् रुद्रादेव प्रजा अन्तर्दधाति अथो यत्रैषाहुतिर्हूयते न तत्र रुद्रः प्रजा अभिमन्यते अश्वस्य वा आलब्धस्य मेध उदक्रामत तदश्वस्तोमीजमभवत् यदश्वस्तोमीजम् जुहोति समेधमेवैनमालभते आज्येन जुहोति मेधो वा आज्यम् मेधोऽश्वस्तोमीजम् मेधेनैवास्मिन्मेधम् दधाति षट्रिकंशदम् जुहोति षट्रिकंशदक्षमाबृहति वारहताः पशवः सा पशूनाम् मात्रा पशोनेव मात्रजा समर्थयति ताजद्भूयसेर्वाकमीजसेर्वाजुहुजात् पशोन्मात्रजाव्यर्थयेत् षटत्रगम् सदम् जुहोति षट्रगम् सदक्षराबृहति बार्हताः पशवः सा पशूनाम् मात्रा पशोनेव मात्रजा समर्थयति अश्वस्थोमीजकम् भुक्ताद्युपराजुहोति पिलाद्विपुरुषाद्विप्रतिष्ठः तदेनम् प्रतिष्ठया समर्थयति तदाहुः अश्वस्तोमीयम् पूर्वगम् अश्व वा अश्वस्तोमीयम् पुरुषोद्व्यपदा आह अश्वस्तोमीजगम् हत्वा द्व्यपदा ज तस्माद्विपाच्चतुष्पादमप्ये अथो अद्विपद्येव चतुष्पदः प्रतिष्ठापयति द्विपदाहुत्वा नान्यामुत्तरामाहुतिञ्जुहुयात् यदन्यामुत्तरामाहुतिञ्जुहुयात् प्रप्रतिष्ठायाश्चेत द्विपदा अन्ततो जुहोद्विप्रतिष्ठत्यै प्रजापतिरस्वमेधमसृजत सोऽस्मात्सृष्टोपाक्रामत कञ्जज्ञक्रतुभिरन्वै एच्छत् कञ्जज्ञक्रतुभिर्नान्व विन्दत तमिष्टिभिरन्वै एच्छत् तमिष्टिभिरन्वविन्दत् तदिष्टेनामिष्टित्वाम् यत्संवत्सरमिष्टिभिर्यजते अश्वमेव तदन्विच्छति सा विक्रियो भवन्ति इयम् वे सविता यो वा अस्यान्नस्य रियो निलयते अस्याम् बावतम् विन्दन्ति न वा दिवाङ्गश्च नेत्याहुः तर्जङार्थोत्येतुमर्हतीति यत्सा वित्रजो भवन्ति समित्रप्रसूत एव विधति येश्वरो वा अश्वः प्रमुग्धः पराम् परावदम् गन्तोह यत् सायम् धृते अर्जुहति अश्वस्य यत्ते धृत्यै यत्प्रातरिष्टिभिर्यजते अश्वमेव तदन् यत्सायम् धृते एर्जुहोति अश्वस्यैव यत्ते धृत्यये तस्मात् सायम् प्रजाः क्षेम्या भवन्ति यत्प्रातरिष्टिभिर्गजते अश्वमेव तदम् विध्यति तस्माद्दिवानष्टैषयेति यत्प्रातरिष्टिभिर्गजते सायम् धृते एर्जुहोति अहोरात्राभ्यामेवैनमम् विध्जति अथो अहोरात्राभ्यामेवास्मै योगक्षेमम् कल्पयति अभवा एतस्माच्छ्रीराष्ट्रम् ग्रामति योऽश्वमेघेन गजते ब्राह्मणो वीणागाथिनौ गायतः श्रिया वा एतद्रूपम् यद्वीणाः श्रियमेवास्मिन् तद्भक्तः यदा थु मै पुरुषश्रियमश्नुते वीणा अस्मैवार्द्यते तदाहोः यदुभो ब्राह्मणो गायता ब्रभृगं सुमाच्छ्री स्यात् न वै ब्राह्मणे श्रीरमत इति ब्राह्मणान्यो गायत् राजन्यान्यः ब्रह्म वै ब्राह्मणः क्षत्रगम् राजन्यः तथाहास्य ब्रह्मणा च क्षत्रेण च भजतश्रेः परिगृहीता भवति तदाहो यदुभौ दिवा गायताम् अपा अस्माद्राष्ट्रम् ग्रामेत् न वै ब्राह्मणे राष्ट्रकम् रमध इति यदा खलु वै राजा कामयते अथ ब्राह्मणम् जिनाति दिवा ब्राह्मणो गायेत् नक्तकम् राजन्यः ब्रह्मणो वैरूपमहः क्षत्रस्य रात्रिः तथाहा ब्रह्मणा च क्षत्रेण चो भयतो राष्ट्रम् परिगृहीतम् भवति इत्यदधा इत्ययजथा इत्यपचगिति ब्राह्मणो गायेत् इष्टापोक्तम् वै ब्राह्मणस्य इष्टापोर्तेनैवै नगुंस इत्यजिना इत्ययुध्यथा इत्यमुगुम्सङ्ग्राममहन्निति राजन्यः युद्धम् वै राजन्यस्य युद्धेनैवेन पुंस समर्थयति अग्लत्ता वा एतस्यर्थपदित्याहुः योऽश्वमेधेन यजत इति तिस्रो अञ्जगायतिस्रो अन्यः षट्सम्पद्यन्ते षड्वा ऋतवः ऋतो नैवास्मै कल्पयतः ताभ्यागुंसग्रस्थायाम् ता अनोयुक्ते च शते च ददाति शता युः पुरुषः आयुष्येवेन्द्रजे प्रतितिष्ठति सर्वेषु वा एषु लोकेषु मृत्यवोऽन्वयत्ताः तेभ्यजदाहुतीर्णजुभजात् लोके लोकजेनम् मृत्यनुविन्देत नृत्यवे स्वाहा मृत्यवे स्वाहेत्यभिपूर्वमाहुतीर्जुहोति लोकाल्लोकादेव मृत्युमवयजते नैनम् लोके लोके मृत्युनुविन्दति यदमुष्मै स्वाहामुष्मै स्वाहेतिजुह्वत्सञ्चक्षेत त्वम् नृत्यममित्रम् कुर्वीत मृत्यवे स्वाहेत्येकस्मा एवैकाञ्जुहुयात् एको वा अमुष्मिल्लोके मृत्युः अशनया मृत्युरेव तमेवामुष्मिल्लोके विजते भ्रूणहत्यायै स्वाहेत्यवभृत आहुतिम् जहोति भ्रूणहत्यामेवावयजते तदाहोः यद्भ्रूणहत्यापात्र्याथा कस्मानाद्यज्ञेऽपिक्रियत इति अमृत्यर्वा अन्या भ्रूणहत्याया इत्याहुः भ्रूणहत्या वाभृत्यरिति यद्भ्रूणहत्यायै स्वाहेत्यवभृत आहुतिम् जहोति नृत्यमेवाहुत्या दर्पयिक्त्वा परिपाणम् कृत्वा भ्रूणघ्ने भेषजम् करोति एतागम् ह वै मण्डिभ औदन्न्यवः भ्रूणहत्यायै प्रायश्चित्यम् विदाकार यो हास्यापि प्रजायाम् सर्वस्मै तस्मै भेषजम् करोति चुम्बकाय स्वाहेत्यपभृष उत्तमाहुतिम् अन्तत एव वरुणमवयजते खलतेर्विक्लशस्य शुक्लस्य पिङ्गाक्षस्य मूर्धम् जुहोति एतद्वैवरुणस्य रूपम् रूपेणैव वरुणमवयजते वारुणो अश्वः तम् देवतया व्यर्थयति करोति न मो राज्ञेन वा वरुणाजेत्याह अश्वः स्व देवतया समर्थयति नमोऽश्वाजनमः प्रजापतजलित्याह राजापत्यो वा स्वः स्वयैवैनम् देवतया समर्थयति नमोऽधिपतजलित्याह धर्मो वा अधिपतिः धर्ममे वा वरुन्धे अधिपतिरस्यधिपतिम् वा कुर्वधिपतिरहम् वृजानाम्भूयासमित्याह अधिपतिमेवैनगुंसमानानाम् करोति मां धेहि आशिषमेवैतामाशा आस्ते उपाकृतायस्वाहेत्युपाकृते जुहोति आलब्धाय स्वाहेति नियुक्ते जुहोति हुताय स्वाहेति हुते जुहोति येषाम् लोकानामभिजित्यै प्रवा एष एभ्यो लोकेभ्यश्च पते योऽश्वमेधेन गजते आग्नेय मयि इन्द्राग्नमा आश्विनम् न्वशो ना लभते प्रतिष्ठित्यै यदा आग्नेजो भवति अग्निः सर्वा देवता आह देवता एवावरुन्धे ब्रह्म वा अग्निः क्षत्रमिन्द्रः यदीन्द्राग्नो भवति ब्रह्मक्षत्रे एवावरुन्धे यदा अश्विनो भवति आशिषामवरुद्ध्यै त्रयो भवन्ति त्रय इमे लोकाः एष्वेव लोकेषु प्रति तिष्ठति अग्नये गुम्भोमु चेष्टा कपाल इति दशः विषमिष्टिर्निर्वपपति दशाक्षरा विराड् अन्नम् विराड् विराजैवान्नाद्यमवरुन्धे अग्नेर्मन्दे प्रथमस्य प्रचेतसहिति याद्यानुभार्या भवन्ति सर्वत्वाय निर्जशवमपतपद्भिन्देत् आग्नेयभष्टाकपालम् निर्ववेत् सौम्यम् सर्वम् सा वित्रभष्टाकपालम् यदा आग्नेयो भवति अग्निः सर्वा देवताः देवताभिरेवैनम् भिरज्यति यत्सौम्यो भवति सोमो वा ओषधीरागम् राजाः यास्थिरेवैनम् विन्दति ताभिरेवैनम् ता भिरज्यति यत् समिद्रप्रसूत एवैनम् भिषज्यति एताभिरेवैनम् देवताभिर्भिषज्यति अगदोऽहैव भवति कोष्णम् चरन् निर्वपेत् यदि श्रावणः स्यात् पूषा वैश्रावण्यस्य भिषग स महती देवताभिमन्येत एतद्देवत्यो वा सः स्व एवैनम् देवतयाभिषज्यति अगदोहैव भवति यै स्वानरम् द्वादशकपालम् निर्वभेन् मृगा खरे गजिता गच्छेत् इयम् वा अग्निर्वेष्वानरः इयमेवेन मृत्युभ्याम् परिरोधमानयति आहैव सत्यमहर्गच्छति यद्यधीयात् अग्नये गम् शौर्यम्बयः वायव्य आज्यभागः यजमानो वा अश्वः अगुम्हसा वा एष गृहीतः यस्याश्वमेधायप्रोक्षितोऽद्ध्येति यदगुम्होमुचे अगुम्हस एव तेन मुच्यते यजमानो वा अश्वः रेतसा वा एष यत्सौर्यम् पयो भवति प्रेतसैवैनगुम् स समर्धयति यजमा नो वा अश्वः गर्भैर्वा एष व्यर्थ्यते यस्याश्वमेधाय प्रोक्षितोऽध्येति वायव्या गर्भा आह यद्वायव्य आद्यभागो भवति गर्भैरेवैनगुम् स समर्धयति अथो यस्यैषाश्वमेधे प्रायश्चित्तिः क्रियते विश्वावसीदान् भवति तदाहोः द्वादश ब्रह्मो दना सर्गस्थिते निर्वपेत् द्वादशभिर्वेष्टिभिर्गचेतेति यदिष्टिभिर्गचेता उपनामकलेन यज्ञः स्यात् पापी यागुस्तु स्यात् आप्तानि वा एतस्य छन्दा कुंसि यी जानः तानि करेतावदाशु पुनः सर्वा वै सग्रस्थ्यते यज्ञे वागा आप्यते साप्ता भवति जातयाम्नी क्रूरीकृते बहि भवत्यरुष्कृता सा न पुनः प्रयुज्येत्याहो द्वादशैव ब्रह्मो दनान् सग्स्थ्यते निर्वपेत् प्रजापतिर्वा ओदनः यज्ञः प्रजापतिः उपनामकजेन यज्ञो भवति न द्वादश भवन्ति द्रादस्य द्वादशमासाः संवत्सरः संवत्सर एवम् प्रतितिष्ठति एष वै विभोर्नाम यज्ञः सर्वगुम् तत्र विभु भवति यत्रैतेन यज्ञेन गजन्ते एष वै प्रभोर्नाम यज्ञः सर्वगम् हवै तत्र प्रभुभवति यत्रैतेन यज्ञेन गजन्ते एष वा सर्वगम् हवेदत्रोऽर्जस्वद्भवति यत्रैतेन यज्ञेन गजन्ते एष वैपयस्वान्नाम यज्ञः सर्वगम् हवेदत्र पयस्वद्भवति यत्रैतेन यज्ञेन गजन्ते एष वै विधृतो नाम यज्ञः सर्वगम् हवेदत्र विधृतम् भवति यत्रैतेन यज्ञेन गजन्ते एष वै व्यावृत्तो नाम यज्ञः सर्वगम् हवैतत्र व्यावृत्तम् भवति यत्रैतेन यज्ञेन गजन्ते एष वै प्रतिष्ठिता नाम यज्ञः सर्वगम् हवैतत्र प्रतिष्ठितम् भवति यत्रैतेन यज्ञेन गजन्ते एष वैतेजस्वी नाम यज्ञः सर्वगम् हवैतत्र तेजस्वि भवति यत्रैतेन यज्ञेन गजन्ते एष वै ब्रह्मवर्चसी नाम यज्ञः आहवैतत्र ब्राह्मणा ब्रह्म वर्चसि जायते यत्रैतेन यज्ञेन गजन्ते एष वाददिव्याधी नाम नाम यज्ञः एष नाम यज्ञः कल्पते ह वै तत्र प्रजाभ्ययागक्षेमः यत्रैतेन यज्ञेन गजन्ते तार्प्येण सर्वंसाम् ज्ञापयन्ति यज्ञो वैतार्क्यम् यज्ञेनैवैनगम् समर्थयन्ति यामेन साम्ना आ, तार्के च कृत्यधिवासे चा स्वगुंसाम् व्यपजन्ति एतद्वै पशूनागुम् रूपाम् रूपेणैव पशूनवरुन्धे हिरण्यकस्पु भवति च दशोऽवरुद्ध्यै रुक्मो भवति स्वर्गस्य लोकस्यानुच्छात्यै अश्व भवति प्रजापतेलाप्यै अस्य वै लोकस्य रूपम् तारक्यम् अन्तरिक्षस्य कृत्यधिवासः दिवो, दिवो हिरण्यकशिपो आदित्यस्य रुक्मः प्रजापतेरश्वः इममेव लोकम् तार्क्येणाप्नोति अन्तरिक्षम् कृत्यधिवासेन दिवगम् हिरण्यकशिपुना आदित्यगम् रुक्मेण अष्टेनैवमेध्येन प्रजापतेः सायुज्यगम् स लोकतामाप्नोति एतासामेव देवता नागुम्सायुज्यम् आगुम्समानलोकतामाप्नोति याश्वमेधेन यजत् यौ चैनमेवम् वेद आदित्याश्चाङ्गिरसश्च सुवर्गे लोके स्पर्धन्त नेष्ट सवर्यभवदिति तस्मादश्वकम् स वर्येत्याह्वयन्ति तस्माद्यज्ञेवदीयते यत्प्रजापतिरालब्धो श्वभवत् तस्मादश्व नाम यच्छत् तस्मादर्वा नाम यत्सद्यो वाचान् तस्मादादित्य नाम अग्निर्वा अश्वमेधस्य योनिराजतनम् सोऽग्नेर्योनिराजतनम् यदश्वमेधेग्नौ चित्य उत्तरवेदिमुपवपति योनिमन्तमेवैनमायतनवन्तम् करोति योनिमानायतनवान् भवति यदेवम् वेद प्राणापानौ वा एतौ देवानाम् प्राणापादावेवावरुन्धे ओजो बलम् वा एतौ देवानाम् यदर्काश्वमेधौ ओजो बलमेवावरुन्धे अग्निर्वाश्वमेधस्य यो निराजतनम् सोर्जोऽग्नेर्योनिराजतनम् यदस्वमेधेग्नौ चित्य उत्तरवेदिम् चिनोति तावर्काश्वमेधौ अर्काश्वमेधावेवावरुन्धे अथो अर्काश्वमेधयो देव प्रतिष्ठति प्रजापतिम् वै देवाः पितरम् वसृम्भूतम् मेधाजालभन्त तमालभ्योपावसन् रादरजष्टाः स्मः इति एकम् वा एतद्देवानामहः यत्संवत्सरः तस्मादश्वः पुरस्तात्संवत्सर आलभ्यते यत्प्रजापतिरालब्धोऽस्वोऽभवत् तस्मादश्वः यत्साध्यो मेधो भवत् तस्मादश्वमेधः मेधुकोऽस्वनाशम् भवति य एवम् वेद यदेतत्प्रजापतिरालब्धोऽश्वो भवति तस्मादश्वः प्रजापतेः तस्मा प्रजापते, पशूनामनुरूपतमः आस्य पुत्रः प्रतिरूपो जायते य एवम् सर्वाणि भूतानि सम्भृत्या लभते स्वेनम् देवास्तेजसे ब्रह्मवर्चसाय भरन्ति योऽस्त्वमेधेन यजते यौ चैनमेवम् वेद एतद्वैतद्देवा एताम् देवताम् अशुम्भूतम् यज्ञेन यज्ञमगजन्त देवाः कामप्रञ्जज्ञमकुर्वत ते वृतत्वमकामयन्त योऽश्वमेधेन गजते देवानामेवाजनेन इति दे। प्राजापत्येनैव यज्ञेन गजते कामप्रेण अपुनर्माणमेव गच्छति एतस्य वै रूपेण पुरस्तात्प्राजापत्यवृषभन्तो परम् बहु रूपमालभते सर्वेभ्यः कामेभ्यः सर्वस्यात्यै सर्वस्य जित्यै सर्वमेव तेना आप्नोति सर्वम् जनति यो अश्वमेधेन जगते य उचैनमेवम् वेद यो वा अश्वस्य मेध्यस्य लोमनी वेद अश्वस्यैव मेध्यस्य लोमं लोमम् अश्वस्यैव मेध्यस्य लोमण्लो मञ्जुहोति एतदनुमृतिहस्मवै पुरा अश्वस्य मेध्यस्य लो मल्लो मञ्जुत्पति यो वा अश्वस्य मेध्यस्य पदे वेद अश्वस्यैव मेध्यस्य पदे पदे जुहोति दर्शपोर्णमासौ वा अश्वस्य मेध्यस्य पदे यद्धर्शपोर्णमासौ अश्वस्यैव मेध्यस्य पदे पदे जुहोति एतदनुकृतिहस्मदी पुरा अश्वस्य मेध्यस्य पदे पदे जुह्वति यो वा अश्वस्य मेद्ध्यस्य विवर्तनम् वेद अश्वस्यैव विवर्तने विवर्तने जुहोति असौ वा नित्योश्वः आहवनीयमागच्छति तद्विवर्तते यदग्निहोत्रम् हो, जुहोति अश्वस्यैव मेभ्यस्य विवर्तने विवर्तने जुहोति एतदनुकृति हस्म वै पुरा अश्वस्य मेभ्यस्य विवर्तने विवर्तने जुह्वति हरिः ओ इति तृतीयाष्टकनवमप्रश्नः समाप्तः